न पक्षे स्वाम् विश्वादर्शनयोः यज्ञेभिर्गे भीलदे स्वाम् बालीयात्य भृगोराजसो विश्वदर्शणि दिवो नरोः यज्ञस्य केतुमिन्धते यद्धस्य मानो जनः स्वन्नाजुर्जुह्वे अध्वरे सु समादेशे रतो समिधायस्ताहो जम्मोन्तम् समुष्य शिक्षया ेवस्ते धूमरण्डम् चुक्रादलः सूरो त्वम् कृपावाकरो जलसे अधाक्ष्मे ज्योतिप्रियोः रन्वःपुरीपदूयः सोऽत्र यया कृत्वा हि द्रोणे अद्यसेग्ने वादीनकृत्याः परिव स्वधागयो नगशिशुः त्वञाचि प्रसुरुन्न धामा भजत्ते अजरवनाः पृच्छन्ति शिग्ोराम् समृदा विश्वतेर्गुणविदशः व्याङ्गिरः अच्छानो अच्छा नो देवदेवानग्ने गोचस्वतिम् रोदस्योः स्वस्ति अम्भाहम् अग्ने सक्षेया गुरुज्योजनस चे बे ैः सजोढादे यज्ञेश्व समे समे ददामजुष्कर्मा सेन प्रदृप्तिः सूरोनयस्याधीः ेडस्वद सुरुदोनाय मत्व पुत्रा जि द्रण्वो निर्वेयाः जीवने दे मम शिवत्वस्य भो नवसान आसामानः परसुर्म जिह्वा वय जिजाुदक्षते सिम प्रदीघादृशी तदे जो चेत्राधरजर्योक्तार्न दृढद्वाः रघुपद्माजम् प्रदेवस्तपुष् सोजाराली मित्रमाः नञ्जयीवानरेण मध्यो हो योजिवानरेणो ने। विधो रः ऋक्षोधी नायन्नालोदेव ना नादं सुपत्नीयोभिर्वायो ना युध्येरकये विद्युन्न विद्यो श्रद्धोः वायो मरुता अन्तरक्षेरो नो अद्यौ ो जो देवता यज्ञेभ्यः सो नो सहसो विलासिनो अद्य स मना समाना न सन्नग्नव सतोक्षि देवान् स नो विभावा चक्ष निर्णवस्तो रग्निर् वेद्यश्च नो दा विश्वायुर्जो अमृतो मध्येषु षड्भुद्भूदति सर्जातवेदाः शुक्रिनोत्यजलः पावकोऽस्नस्य चर्जाणि न अस्य चक्रे अग्निर्जर्णात्मान्नम् सोर्जसोर्जम् धारेव्यन्त राष्ट्रे चून् दुर्त आदि परिकृत् आनुमध्ये रग्नैरग्ने तदन्तरोगासी विभाषा चित्रो यत्परितमाम् शक्तः सोपौषिजो नदीयन् इन्द्रम् नत्वा तपसा देवताः वायुम् प्रीणन्ति राजार्दा स्वस्ति वेशीराजः पथिभिः परिशम्भाः तासु वृद्धो गणते राशि सुमदेव भुवेवः सोनुन्द्रः सोयुवाद्रो घवारमलम् जयिन्द्रवीणालि प्रदेवा विश्ववाराणि गुरुवारो अधुग देव सोनि गुर्वणी गोदौ वस्तु क्षामे भवि स्वा भुवनाय स्वयं दौभगानि गतिरे भगवजानाम् अतः जीवितो वसूनि यो नो अभिदासलग्ने यो अन्तरोमित्र महो वरुषात् तमजरे भ्रैस्तवा यस्ते यज्ञेन समिनायुक्ते सहसो ददासमर्थेष्वृत प्रदे श्रव सा विभाति स तत्क्रीधीषितस्तूयमग्ने स्पृथो बाधस्व सहसा सह स्वायच्छस्य सेद्युभिरवयोजो अस्यामदङ्गा मा सुवीरम् अस्यामवाजामभिवाजयन्ते प्रणव्या साधसूनुमच्छा यज्ञेन गातुमव इच्छमाहानः निश्चनम् कृष्णयामृषम् तम् वीती होतारम् दिव्यम् दी गाति यतूरो जनस्ता ृष्टः यः पावरुमः कर्वन् द्विते विष्वग् सो अग्ने सुरन्ति विमृशासो जानवग्भावना वरन्ति दृढता रुजन्ताः ्रासु जायसु चाक्षामवन्ति विषी दासो अश्वाहा अथ लिपाना सु प्रसीदि क्षातिरग्ने दुर्वाक्तुर्भीमोदय देवनाय चरित्र चरिं ते चरित्र क्षत्र चैत्र योधा चन्द्रम् पूरवीरम् बृहन्तम् चन्द्रभिर्गणे यो वस्व ृम् पृथिव्या वै स्वानरमृता जातमग्नि कविम् सम्राजमतीथिम् जनाः नामासन्ना पात्रम् जनयन्त देवाः नाभिम् यज्ञानाम् सु ीश्वानरम् दच्छ मध्वराणाम् यज्ञस्य केतुम् जालयन्त देवाः त्वद्विप्रो जायते वा जज्ञे जा त्वद्भिसो अभिमादि वैश्वानरत्वमस्मासु धेमसू निराजनान् सृजायामि त्वाम् ैश्वानरय पित्रोरीदे वैश्वानरसपदानि व्रदानि महान्यग् यज्जायमानः पित्रोपस्य विन्दः केतुम् मजिनेष्वैश्वानरस्य विमेतानि यक्ष साधारणो नि अमृतस्य केतुना वा वा परियो ैश्व गोपा रक्षिता वृक्षस्य विष्णो हरिणस्य नूतन प्रणवोचं विदधाः जातवेदः वैश्व या रिक्षमवि सुक्रुर्वैश्वानरोमीनाद्रोदी विद्रोद्भूतो ज्योतिषातमाः चर्माणैव धि अवर्तयद्वै स्वानरो विश्वपसम् अपामुपस्थे बहिराग्रभ्रदपि सो राजानमुपतस्तरु अग्निः भरद्दिवस्तो वै श्वानरम् आचरिष्वा परामताः युगे युगे विदर्थम् गृहभ्योग्ने रयम् यशसम् धेरव्याधीम् राजन्नम् दमजानस्माके सुधायम् नैव सहस्रै स्वाहनराजमोभिः अलभे भिस्तभ गोपाभिष्टेऽस्माकम् पालिः प्रदलसूवीर रक्षादनो ददृशाम् श्रद्धोः अग्ने वैश्वानत्र च राजीस्तवानः अहश्च कृष्णमह रज्जो जायमाणो न राजावाजिरज्जोषाग्निस्तवांसि नाहन्तन्तुम् न विहानाम् योधुम् नयम् रयन्ति समरे दवाः पित्रा ुम् सविराम् यिगेतदृतस्य गोपापनन् परो अन्ये तप्यन् अयम्भूता प्रथमः पश्य तेन मिलम् जोरीरभृतम् मध्ये अयम् धनज्ञे ध्रुवानृतो आवर्धमानः ध्रुवञ्जो निर्निहीतम् धृत एकम् मनोजविष्टम् बादकः स्वन्दः विश्वे देवास्तके दारे कङ्क्रतोमभियन्ति साधु विदे कर्णापदी श्चरं विश्वे देवान सन्धिया स्वाम वैश्वानरापदूतजेन मा जोपदूतजेन गुरो वो मन्त्रम् देव्यम् सुव्यक्तिम् प्रजति यज्ञे अग्निमध्वरे चिध्वम् पुरमुक्तेर्तयिनो विभावाश्वराकारति जातवेदा तमुद्यमः पूर्वणि गोदरग्ने अग्निभिर्मनुषयि धानः यम देव सूडङ्घृतन्न शुचिमदयः पवन्ते ीवायस्रवसामन्त्ये ऋजो अग्नये ददा सभिप्रमुक्तये चित्राभिस्तमोदिभिश्चित्रसोचर्म साता गोमातो दधाति आयः पप्रौजाय मान उर्वीदूरदृशा अद भव्याया स्थिरसोजुगा ददृशे भावकः नूनश्चित्रम् पूर्वाजाभिरूरयुम् मघवद्भस्तदेश्रवदातान् सुवीर्ये यज्ञम् च नो धा अग्नभुषण्यन्ताो जो गते अविष्मान् भरद्वाजेषु किमीर्वाजस्य साधौ भाधो न ना प्रयुक्ति आनो मित्रावरुणालाल्यावाहोत्राय पृथिवी वा वृत्याम्भोदा मन्द्रता मो नो अद्रगन्धर्देवो विदधार्ते जुक्त्वा धन्याः चिद्धि द्वे धिरञ्जनागणै द्वे पृष्टो अङ्गीरञ्जद्धि यम् नमासा राधहौन्ते सुप्रदम्पञ्च जनाः वृन्ते हयम् नमासा बलिरग् मया विशुघृतवादेशक्तिः अन्यक्षिते पृथिव्याश्राजयज्ञस्तु येन दक्षो स्या न पूर्वणि गोदर् देवेभिरग्ने अग्निभिरिणा राजो नो वाना अधि सदेव गोराग्नि सोलसि रोलसीरध्यै अयं दसो न सह दृता वा दूरात् सूर्यो न शोचिरा आयस्मिन् त्रे स्वारे हद्यामगानि मानुष्ठायस्या नो अद्य अद्रो गो न मर्त्यो वक्त्रपोषाधीषु स्माकेऽभिरेत सूर्यैर कृष्ण वेद महाजात वेदाः दृढत्वा नास्रेव जय जयैः अध स्वास्य वनयन्ति भासो विधाय दक्ष दशाी सद्यो यस्पन्द्रो विषितो तवीया अर्वण् राजा विश्वेभिरग्ने अग्निभिर्जा वेषापदे वसदयि मा सुवीरा त्वद्विश्वा शुभगतो भगान्यग् वियन्ति मनि नो न वया सृष्टिरजिर्वाजो वृत्र दूर्जे दिवो वृष्टिरीर्जो रीति ममा त्वम् भगो न आयिरत्र विषये परिज्ञे वक्षयसि दस्मवर्चा अग्ने मित्रो न बृहतऋतस्य शिक्षन्ता वामस्य देवभूरे सत्त्वादिने विप्रो विपने यन् त्वम् प्रचेतऋत जात राजा सजोषा न प्रापाम् यत्ते सोनो जगतो गीर्भिरुक्थैर्यज्ञैर्मक्तो निशीतिवेज रस्वं दवेदप्रतिवारमग्ने धत्ते धान्या धान्याहम्प्रत्य देवसव्यैःभ्यासौस्रवसा सुबीराग्ने सो नो दगदः पुष्यसे धाः कृणो जयच्छव सा भूरि पश्यो वयो मृका या रजे च सूरजे अध्नासो नो सहसो नोभिघा या अग्ने तोकन्दनायम् वाजिनोदा विश्वाभिर्गेर्भिरविमूर्तिमस्याम् मदे सदयीमा सुवीरा अग्नायो मर्त्योदुबोधियम् जुञोषधीतिभिः मदन्वृषप्रभूर्जैषम् पुरीताभासे अग्निरुद्धिप्रहेता अग्निर्वेदस्तमर्षीः अग्निम् होता रमीणते यज्ञेषु मनुषोऽपि सह अग्ने स्पर्धन् ते रायो अर्जः पूर्वम् तोदस्यो मायवो व्रदेशीक्षम् तो अव्रतम् अग्निरप्सावृदीषहम् कीरम् ददाति सत्पदिम् यस्य सन्दिक्षिदत्र वोभिया अग्निर्हि विद्मनानि देवो मर्तमुरुष्यति सावयस्यावृतो ऋजेष्वृदः अच्छा नो मित्रमहो देवदेवानग्ने वोचस्वपतिम् रोदस्योः स्वस्तिम् <middag> सुक्षिम् दिवो नेन् द्विषो अम्भाम् रेत पावा सात रेषु अधिमुद्बुधम् विश्वासाम् परिभृञ्जसे गिरा वेदे जनुषा कच्छिदा सुिगर्भोजदच्चूतम् मित्रम् नयम् सुधीतम् भृग बोधर्वनस्पता वीड्य मूर्ध्वसोजम् स त्वम् सुप्रीतो वीरहं ये अद्भुतः प्रशस्तिभिर्म यसे दिवे दिवे स त्वम् दक्षस्या भृको वृते भूरः परस्यान्तरस्य रूषः रायसू नोदग सोमर्ध्येष्वाच्छ वीरहं याय सप्रथो भरत्वाजाय समप्रथा निदानम् गो अतिथिं स्वर्णरमग्निम् गोदारम् मनोढस्वध्वनम् हि प्रन्नद्युक्षभासे पावकया क्षामन्त्रोलभाया मन्ये तस्य नूरणायो घ्नेन तदृगा नो अचराः अग्निमग्निम् वः समिधा प्रियम्बो अतिथिम् गृहीषुणि उपभो गीर्भिरवतम् विवासत देवो देवेषु वन देवायम् देवो देवेषु वन देहि नो दुवा समिद्धमग्निम् समिधा गिराग्रीणेषु जम् पावकम् पुरो अध्वरे ध्रुवम् द्रुहम् कविम् नैरीमहे जातवे दशमग्ने अमृतम् युगे युगे हव्यवाहम् दधि रे पायुमीर्यम् देवादश्चमृतादश्च जाग्रेभ्यम्ब्यम् विस्तम् नमासा निषेदिरे न्नग्न उभया खलु व्रता दूतो देवानाम् प्रजासी समीयते स्मानस्त्रिवरूथः शिवो भव तम् सुप्रतीकां सुदृशाम् स्वन् समविद्वांसमुदृष्टारम् सेम स यच्छद्भिस्वा भजनानि विद्वानरा नुष्यतोनिपाह्यत्वमूनः सहदावन्नवद्यात् सन्त्वा सहस्री अग्निर्होता गृहपाधिःस राजा विश्वा वेदजनीमाजातवेदा देवानामुदयो मर्ज्यानाव्यजेष्ठस प्रजातामृता वा अग्नेयदव्यध्वरसोदः पावाकसोचे वेष्वम् हि यद्वा ऋताय जाति मयिनाभियद्धूर्हव्यावाघ ज्येष्ठजाते अद्य अभिप्रयां शिषुधीता निक्षो नित्वा दधीतरोदसीयजध्यै अपा नो मघवन्वाजदातावग्ने विश्वा विदुरिदात रे मदा वा दातरे वा अग्ने विश्वे विश्वनिक देवैरूर्णावन्तम् प्रथमस्यीदयोनिम् लायिनम् हृदवन्तम् न मित्रे यज्ञम् न जय जानाय साधु इममधर्मन्ति वेधसा यमम् गोयन्तमानायन्नमूराम् स्याव्याभ्या जा देवदीवे देवान्वक्षमृताङ्गताज्ञम् देवेषु विसृषः वज मत्वा गृहपते जनान्नामग्ने अकर्म समिधा बृहन्तम् असूरि नो गार्घवत्यानि सन्तु ज्ञेन हस्ते च सा संधीनाधिमग्ने यज्ञानाम् होता विश्वेषाम् गिनः देवे बर्मानुषे जने स नो मन्त्राभिरध्वरे जिह्वाभिर्यजा महः आ, आ देवाम् कक्षि यक्षी चेत्थाधो अध्वरः पथश्च देवाञ्जसा अग्ने यज्ञेषु सुक्रतो स्वामी रे अध्यभरतो वाजिभिः सुरम् ईजे यज्ञेषु यज्ञियम् ्या पुरुदिवो दासाय सुन्दते भरद्वाजाय दासुषे त्वम् दूतो आद्यावाहादि व्यञ्जनम् शृण्वन्विप्रस्तुष्टदिम् स्वाग्ने स्वाध्यो ओमर्तासो देववीतये यज्ञेषु देवमीरते प्रयक्षिसं जुषन्तकामिनाः संहोदामनर्हितो वनन् अग्ने यक्षि जिवो विशाः भी अग्हि भीतये कृणानो हव्यदादये निहोता सत्सि बर्हिषित्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि जुहच्छो चायवृष्ट्या स नः पृथुःस्रवायवच्छुहदग्ने सुवीर्यम् अग्ने पुष्टमन्तरः मूर्ध्नो विश्वस्य वा गताः समुत्त्वादध्यम् गृहे पुत्रये असर्वणः भरद्रहणम् पुरन्दरम् अमुत्वापाच्योभिषासमीभेदस्युहन्तम् धनम् जयम् रणे रणे ये ह्योषुप्रवाहणि ये ग्रयिच्छेत रागिराः येभिर्वर्धा स इन्दुभिः यत्रे मनो दक्षम् दधसमुत्तरम् तत्रासदः कृतवसे न साधुवो वनपसे आग्निरगामि भारतो वृत्रहाचेतनः दिवो दासस्य सत्त्वादिः सिमासम् महे त्वना अन्नोस्त्रेतः स प्रत्रमन्नवी यसाग्ने जुम्नेन सञ्जता बृहत्तः नमः सहायो अग्नजे स्तोमम् जयकम् च धृष्ट्या अर्चकाय च मेधसे स हियो मानुषाजुगाजी तद्धोताः कविक्ररुः भूतश्च हव्यवाहनः कालाजालूदङ्गलम् रोदसी ी ते अग्ने सन्दृष्टिरिषय देवत्या अस्तश्रेष्ठो द्यत्वा भवान् सुरेणाः आसतु भक्तिम् एते अग्ने त्व विश्वमायोः अरणन्तो अर्यो अरातीर्मन्तो अर्यो अराः अग्निर्त्यग् शोचाया सर्गे स्वान्या अर्त्रिणम् अग्निर्नोहो बलते रयिम् सुवीरम् रयिमाभ रजात वेदो वितर्षणे लघिरक्षाम् द्विसुकृतो सोऽत वेदोऽघायतः तो जदासी अस्मान्नः पाठ्यम्भसः जिह्वाचापरि बाधस्व दुष्कृतमम् जिघांसति भरद्वाजाय स प्रथः शर्मायच्छ सहम् च अग्ने वरेण्यम्बसु अग्निर्वृत्राणि जङ्घनद्रविनस्युर्वीपन्यया समेध्यः शुक्र आहूतः गर्भे मातुः पिजुः पियामिदानो अक्षरे सीदम् हृदस्य योनिमा ब्रह्म प्रजावदाभरजात वेदो विदर्शने अग्नेयद्धीत यद्दि उभत्वा अग्ने छायामि वधृेरम् अग्ने हिरण्यसन्दृशः य उग्रजीवसोनवंसः अग्ने पुरोः रुरोजीतः आयामः तेन खालिं जातन्न विभ्रजिशावेम् सध्वरम् देवम् देववीतदे भरतामसुवित्तामम् आस्वेजो नौ ऋषीदतु आयातम् जातवे एतदिप्रियम्सी सीतादिथिम् स्यो आग न आगृहपातिम् अन्ये युक्ष्वाह्येतवा दे स्वाहासो देव साधवाः अनम् वहन्ति मन्यवे नो जाह्यावाहाभिप्रियांसि वीतये देवान् सोमापीतये उदग्ने भारतद्युमदजस्रेणदविद्युदत् शोचाविभाष्यचर द्वितीयो देवम् वर्तोपस्येदग्निः वीताध्वरे हविष्माहान् ओतारम् सत्यय चरोदस्योरुत्तानहस्तानमसावीभासेत् आदे अग्निरृजा हविर्हृदा दष्टम्भ रामसि एते भवन्तो क्षणऋषभासो वसाहुता अग्निम् देवासो अग्रियमिन्धे दे रतम् एनावसोऽन्याभृदा धृळारक्षाम् शिवाजिनाः भवतु अपि वात यमनाः ओ हरिः ओ मामभियमुद्रदीर् इन्द्रादृष्णो वज्रः स विश्वाहात्रमी त्रियासवोऽभिः सयेम्बाहितरुत्रायस्य विप्रवा यो दीना ्रभृत्वभिर्द्रोहरिष्टाश्रयम् देवापाहि प्रत्नसामुन्दत्वाृहसोतगीर्भिः आदिसूर्यम् गृह्णयितेहो जयिनत्रोङ्ग्रभि गायिम् व्रदन्धि बृहदिन्द्रस्वधा भुक्षयन्तद्युमन्तम् महानोरम् तव सम् विभोजिम् वत्सा जलन्त प्रदाहम् हे हि सूर्यमृषसम्बन्दसारो वा दयोपदृढाय महाजेम् परिगायिम् रसन्तम् लुत्थान ह्रस्व हि स्वार वक्रत्वांसनाभिरामासुसारो माधुर्याभ्यो विदृढदूर्वाद्वाले अप्रा दक्षाम् महिसोऽभ्यो राज्ञामृष्टो बृहदिन्द्रस्तभाजः रोदसी देवपुत्रे प्रथे मातरायत्वा विश्वे पुर इन्द्रदेवायैकम् तमसम् दधिरेवराय अदे भोजनभ्योष्टदेवान् सर्वदा वृणत इन्द्रमत्रौश्चिदानामध्यथात्वस्य मन्योः अयम् यदिन्द्रो अभ्यो हानम् विश्वायुः सयथे जघान अध द्वष्टा देवम् नहस्रा भृत्यम् वृतच्छताञ्जयन्तमहिं संवीण गृहीषिन् वर्धान्यम् विश्वे वृदस्जोढाः पदच्छदम् विष्णोस्त्री नितराम्सि धामन्वणम् विरमन्तुमस्मै आचोदो मयि मृगनदीनाम् परिष्ठितवसृजभूर्मित इन्द्रपन्थान्द्रार्दयोनीचीरपसः समुद्रम् एवाता विश्वाय कृपाम् समिन्द्रम् महामुक्रमाचुर्यम् स होदाम् वीरम् त्वा स्वायुधम् सुवज्रमा ब्रह्मण व्यमव देववृचारुषे दे। च राजे धेहिन्द्र विप्राज भरद्वाजे युगद इन्द्रसूर्यम् दिमिदस्मै दिवार्येण इन्द्रा अजावाजम् देवही दंसने समुष्टुभिभोजातः पुरुभूत इन्द्राः अशाग्रम् सहमानमाभिर्गेभिर्वद्धृभम् जर्णीनाम् स युद्ध जगत् समद्वादविन्द्रचो नु माद्रे मानुक कृष्णीनामभवत्सहा वा त्योन्न कृष्टीरामनोरार्याय असिस्मिन् दत्त इन्द्रणस्वीनस्ति तदृधा विभोधः सिद्धिनः सहष्ट उग्रमुग्रस्य तन्नः रत्रम् सख्यमः युष्मे यच्छावदद्भिर्मलमङ्गीरोऽभिन्नच्युतच्युत्तस्मे विदुरो स हि जेविर्ह्युद्रयीशाने सोकसात वज्रीवीयो अभवत् समत्सु स मध्वनादिनी ममास्रे सद्युम् राजा स वीर्ये ननुतमस्समोकाः स यो न मुहेन विशोचनाभोत्सुमन्तूनामाचुमूरिम् धुनिम् च धृणः क्षिप्रम् सम्भरम् दृष्टमिन्द्रः पुरान् श्रोत्राय स यथा चोचेत् भीमा गम्भीरय ऋश्वजायो रुरोदानयतु निता आगमस्रमम् पतिभिरिन्द्र राजानुवेद्युम् न तु विवाजेभिरर्वाक् याहितो नोजस्य नो चिददे भजीषेः पुरुः दजोतोः प्रदुवेद्युम्नस्य स वीरस्य घृष्टेर्दिवोरप्स्ये महिमा पृथिव्याः नास्य सत्रम् न प्रदिमानमस्ति न प्रतिष्ठ्यः पूर्वमायस्य दह्योः कृतं स्मै पुरो सहस्राणि अभिक्षामुत्तोनम् घृशतानि नेधात्वाभिवदन् विश्वे मङ्गवीयाम् गोबाधिताय दिवेदनाय तन्वे गृहानात् अनद्या वा पृथिवीरो मद्याजिहर इन्द्रदेवाः कृष्वा कृत्नो यत् ते अस्य उक्तम् नरी योजनय सुन्द्रोदाभिनः सोऽभिः अस्रग््यायोः प्रथस्वकृतः कर्तृभृत् भूले ेवो वा मृधेऽसामि बहुलागमस्त्यस्मध्या अक्ष्मी मे ह्यस्रवांसि यूथेव पश्यः पशुपादमू न अस्माकिवादौ न्द्रम् सजिनामस्य साकैरिह नूनम् वा जयन्तो हुवेम यथा जित्पूर्वे जरितार आसुरणे ध्यानवत्यारिष्टाः जतौव्रदोधनदा सोमवृद्धस्य हि वामश्रमसूनः रञ्जग्निरेवत्या आरायोग्रेण बृन्दभोजादमाना शनिष्ठम् नाभरसूरसमोजिष्ठमोजोः अभिभूतमुग्रम् विश्वा जुम्ना वृक्ष्यामानूनामस्मभ्यम् दाहरिवो मादयध्यै ्रदरागादृद्धयन्द्रतम् नाभरोषुवांसम् येन यस्य धातोमम् श्रीमहे जिगीवाम् न स्तो आनो भरमृगानम् दृष्ट्वामिन्द्रधनः स्मृतम् दोषुवांसम् सुदक्षम् एन वंसा मृणादुदक्षो नोतिभिरुदजामिदी आदे सुष्णोः प्रभयेत पश्चादोत्तराधराधा पुरस्ता आविश्वतो अभिनवेत् सर्वा इन्द्रद्युम्नम् सर्वध्येभ्यस्मे विभवता यन्द्रभृता माभिरुयिवम् धीमहि वामम् सोम देभिः ईक्षेयोश्चि स्थूरम् बृहन्तम् ृणभम् वावृधानमकवारिम् दिव्यम् दातमिन्द्रम् विश्वादाहमधेनूग्रम् सोदाम्भू जम्बजन्महि जन्मन्यमानमेभ्यो नृभ्यो रन्ध्रजालेष्वस्मि पृथिव्याम् दूरदासौ भवामहे जय गोष्वत्सु येभिः पूर्वहोदख्यैश्वत्रो श्वत्रोरुत्तरयिष्यामो वृत्राण्यूरराजामादेवृहदा कोदाः यौर्नयिङ्गाभिभो भाग्यस्तौ रयिश बाधा मृत्सु जनान् तन्नः सहस्रफलराजाम् दद्धि सो नो वृत्तम् दिवो न तु भवेन्द्रत्रा सूर्यम् देवे भर्धा यि विश्वम् अयम् यद्रत्रमपोपृवान् संहङ्ग्रे जेषन्विष्टो नादारः तूर्वन्नो दीया नवसत्सवीयान् कृतब्रह्मेन्द्रो वृद्धमाहाः राराभवन्मधुरः सोम्यश्च विश्वा साम्यः पुरान् शतैर भद्रम् प्रणय इन्द्रात्रवलेर्गधातौ वधैः सुष्णश्चानुरस्य मायाप्युत्को नारीरे दीर्त्यञ्चनम् प्र मोहा द्रुहो अप विश्वायुधाजिभद्रस्य यद्वदेवर संसाराधये करेन्द्रः कुत्साहाय सूर्यस्य